अथ सप्तदशोऽध्यायः भूयोऽपि पाश्चात्त्यदेशेषु पुनः पश्चिमदेशेषु भ्रमणं कर्तुम् इष्टमान् श्वेनारब्धानि कर्माणि स्वामिवर्यो निरीक्षितुम् प्रदातुं च सतीर्थेभ्य शिष्येभ्यश्च प्रचोदनम् अनया यात्रया शक्यं भवेदिति च तन्मतिः समुद्रयात्रया तस्य स्वास्थ्यं भद्रतरं भवेत् विदतो मतमित्येवम् अनुकूलम् अभूदपि तुल्यानन्दित्याख्यं स शिष्यं तथैव च निवेदितां च तस्यानुयात्रां कर्तुं स आदिशत् तुर्यानन्दवर्यस्तु वेदशास्तु परायणः सार्वलौकिकार्येषु किन्तु तस्य स्पृहालहि प्रयातु मन्यदेशं स तत्परो नाभवद्भृषं विकारभरित स्वामी रुधित्वा प्रोक्तवान् तदा समागतोऽहम् अधुना समीपे मरणस्य भारं मम लघुकर्तुं किमल्कलं किमल्पं तं न शक्नुया तयानन्दहृदयम् एतद्भाषणम् अस्प्यसत् कुत्रापि स्वामिनः साकं गन्तुं सज्जो भवत्सच आरभन्त च यात्रां ते गोल्डकोण्डा इति नोकयाम् अकरोद्भाषणं स्वामी यात्रां यात्रामध्येयने कथ स्वामिनो ज्ञानभाण्डारम्भ्यचित्रं चापि विस्तृतं सह यात्री कलाभार्थं सम्यग् गुड्वां गुड्वाडितं तथा प्राधान्यं कर्मणस्तेन गौरवेणैव भासितम् महापराधो भवति निष्क्रियत्वं च उक्तवान् करणं मुख्यमित्येवं पाश्चात्त्यानं मनोगतं पौरस्त्यानां तु सङ्कल्पसहनं प्रमुखं व्यपि एतस्य पुण्ययुग्मस्य संयोगपूर्णजीवनं तदैक्यं किन्तु शक्यं न स्वामिनैव मुदीरितम् निवारे श्वासबुद्धे आध्यात्मिकपुरोगतिम् अस्माभिः परिहर्तव्यं दुःशीलं तत्तु सर्वथा कालीमातरमद्यस्य स्वामिनोक्तं कदाचलपूजनं रौद्रभावस्य स्वामिवर्येण कीर्तितं युद्धस्य सर्वदा चेति सर्वान् स सम्बोधयत् पराजितो यद्यपि स्यायुध्यस्वेति स उक्तवान् यदस्ति भीकरं तस्य कुरुष्वतोसनाम् आराधयत्वं मरणं सर्वमन्यन्निरर्थकम् एतत्तु शौर्यहीनस्य मृत्युर्प्रेम न हि ध्रुवं तथैव बलिहीनस्य प्रेमापि न वर्तते बलिन स्वागतं दत्तो यो यद्यपि गतोऽसि च गाम्भीर्यं प्रति सर्वेषां यज्ञे च गतिहीनताम् अखिलेषुपरिं निःसस्तु स्वामिवर्येण वीक्षितं केवलं बलमेवेति सोवरस्सह यात्रिकां वेदवेदान्तसारस्तु तत् शब्दे वर्तते तप्तिश्च निर्भयत्वं च स्वामिना श्लाघितं सदा नित्येवं स्वामिना प्रोक्तम् अनेकविषयोपरि जलायात्रां करोति स्म विदेशं प्रति नौकयां स्वास्याय स्वामिवर्यश्च नौकायानमुपकार करोकरो नासीत्तु सागरशान्तश्चन्द्रिका च मनोहरा स्वामिवर्यो समायातो न्यूयार्क् परमन्ततः मित्रस्य कस्यचिद् गेहं ग्रामस्थं गतवान् सत मासत्रये गतो स्वामी न्यूयार्कं पुनरागतः स्वागतं तस्य मित्राणि शिष्याश्च व्याहरन्नपि यत्कर्म स्वामिनारब्धम् अद्यतन् वृद्धिमाप्तवन् ज्ञातेदं स्वामिवर्यस्तु नितरां मुदितोऽभवत् आरेभिः स पुनश्चापि भाषणं वर्गचालनं तुरीयानन्दवर्योऽपि कर्मशो। नासे जल्पं जल्पपासलेनाधिस्थले स्वपि निरन्तरं विवेकानन्दवर्येण भाषणं बहुश कृतम् स्वामिनो भाषणं किन्तु लेखितुं हन्त नाभवत् गुडिन् वर्यस्वामिभक्तसङ्क्षिब्दालिपिकारकः नष्टीभूतान्यतस्तस्य भाषणानि बहून्यपि शिष्याणां लघुलेखेषु शन्ति स्तोकानि केवलं पासले नासले धर्ममन्दिरे भाषणं कृतम् सन्देशवाहक किस्त इत्यस्मिन् विषये यदा असाधारणरीत्यैव स्वामिनोमुखमण्डलं तेजोमयं तेजोमयम् अभूच्चेति वन्दन्ति स्म सभासदः ओक्लाण्ड् नामुखस्थानं सान्फ्रान्सिस्कोपुरं तथा अल्मेडां च चिकागो डेट्रोयेन् धत्तनं शपि कदा स्वामी च कृतवान् तत्र सर्वत्र भाषणम् उपस्थिता जनास्तेषु मेलनेषु सहस्रशा अतिव्यस्तृजं भूभाग तदा भक्तेन केनचि प्रदत्तः स्वामिने यस्तु शैलपादेशवस्थितः ध्यानादिकार्थे तत्र निर्मातुमाश्रमम् तुर्यानन्दवर्यं स बधि चेती व्यभावयत् स्वामिवर्य पुनश्चापि न्यूयोर्क् पुरमागतः न करोत् तत्र वेदान्तसमाजे चाविभाषणम् अस्मिन् कालावधौ स्वामी तुर्यानन्दमुक्तवान् भूमिलाभं प्रति स्वस्य सङ्कल्पं सुविचिन्ततम् तुरीयानन्दे तस्य भारं सोढुं विषङ्कुतः नातिरिच्छा भवत्यै सा स्वामिनैवमुदीरितम् अन्तत स्वामिनिर्देशं शिष्येणाङ्गीकृतं चे एवं शान्त्यश्रमं तत्र निर्मातुं निर्णय कृत